6 मुद्गलपुराण घंटम 45 विकटचरतम फोर्टिफाइ विकटचरित सवर्णनमीगणेशा नम आश क्रिवाचय नावतारास् धृतास्ते न महात्मना विकटेन महादेव्यसङ्ख्यातुं नैव शक्यते भक्तिप्रियस्वभावेन भक्तानां विघ्ननाशनाद कुरुते स्वावतारान् स विकटः परमेश्वरः मयूरक्षेत्रमधुना गच्छ्वं तत्र संस्थिता पूर्णरूपेणात्र कलांशात्मिकामुदा तत्र विघ्नेश्वरं भक्रिया सेवध्वं शक्तयः पराः तेन योगीन्द्रवन्द्याश्च भविष्यधनसंशयः विषयादिषु भावेषु मा चित्तं कुरुत गणेशमार्गमाश्रित्य भजध्वं विकटं परं वेदादिषु गणेशस्य प्रीतिदं कर्मचोत्तमं तदेव भक्तिसंयुक्तात् कुरुध्वं नित्यमादराद गणेशमूर्तेश्च हृदि चिन्तनं कुरुत मनसिं बाह्यपूजां च गणेशप्रीणनायतां विषयेषु विरक्तत्वाद्विकडा भक्तिरुत्तमा गणेशे सक्तचित्ता सा कर्तव्या नित्यमादराद मुद्गल उवाच एवमुक्त्वा ददौताभ्यो मन्त्रमेकाक्षरं परं सविधिं गणराजस्य तदो मौनम् समादधे प्रणम्यशक्तय सर्वस्ततस्ताम् भक्तिसंयुधाः महाकालीमुखा दक्षयुः क्षेत्रं मयूरकं मयूरके तत्र देवीं ददृशुस्ताः सुहर्षिताः प्रणाम्या पूज्यतां टुण्ठिं तदस्ते पुस्तपो महत शतवर्षे कदे तासां पुरदो मयूरेश्वरः समाययौ ततस्तां ताः प्रणेमुर्कर्षसंयुताः पूज्यनाविधैर्देवमुपचारैर्मनोरमैः पुनः प्रणम्य विघ्नेशं तुष्टुः करसम्पुडाः महाकाली महालक्ष्मी महासरस्वत्य ऊचुः मयुरेशाय विघ्नेशाय भक्तविघ्नहारिणे विघ्नदात्रेह्य भक्तेभ्यो गणेशाय नमो नमः लम्बोदराय देवाय मूषकध्वजिने नमः अनाधानां सनाधाय नमो नाधाय ते नमः परेशाय महेशेभ्य सिद्धिदाय गजानन अनन्दाय सदा स्वेभ्यः सर्वदाय नमो नमः ब्रह्मणां पदये तुभ्यं सदा शान्तिमयाय च शान्तिनां शान्तिरूपाय परात्मने नमो नमः हेरम्बाय नमस्तुभ्यं कवये कविरूपिणे कविभ्यः पददात्रे च कवीशाय नमो नमः सिद्धिबुद्धिवरायैव सिद्धिबुद्धिप्रदायिने सिद्धिबुद्धिप्रचालाय तद्रूपाय नमो नमः माया मायिकचिह्नाध्यायिप्रकेलकस्वरूपिणे योगशान्तिस्थभावाय शान्दिय नमो नमः शक्तये भानवे तुभ्यं विष्णवे शङ्करात्मने नानारूपधरायैव केलकाय नमो नमः किं स्तुमस्त्वां गणाधीश यत्र शान्तिं प्रलेभिरे वेदादयशिवाद्याश्च नमामो मयूरध्वज भक्तिं ते देहि सर्वेश वासं क्षेत्रे त्वदीयके तदेदिता गणाधीशो ह्यगद्दद्भक्तियन्द्रिदः इदं स्तोत्रं पठेद्यस्तु शृणुयात्स लभेत् परम् इह भुक्त्वा अखिलान् भोगानन्दे स्वानन्दमाप्नुयाद एवं दक्षमः चित्रं चरितं कथितं मया विकटस्य समासेन सर्वसिद्धिप्रदायकं नानेन सदृशं किञ्चित् सर्वदं कुत्र वर्तते साक्षाद् ब्रह्मप्रदं पूर्णं तत्र किं वर्णयाम्यहम् इदं विकटमाहात्म्यं शृणुयाद्यो नरोत्तमः श्रावये पठेत्सोऽपि सर्वसिद्धिमवाप्नुयाद एकमावर्तनं नित्यं ह्यः कुर्यात् स मदोपरः साक्षाद्विकटरूपः स दर्शनात् पावनो नृणां यावन्ति साधनान्येव साधयेत् परमादृदः शतवारं लभेत् पुण्यं खण्डस्यास्य श्रवाच्च इष्टापूर्तादिकं यस्तु कुर्याद्भक्तिसमन्वितः तस्माच्छदगुणं पुण्यं श्रवणादस्य संलभेद पुराणोपपुराणानि शेधिहासानि नित्यशः शृणुया च ततः पुण्यमनेन वर्णितो विकटस्तेन समं किं सम्भवेद्वद सुद उवाच एवमुक्त्वा महायोगी मुद्गलो विररामः महा दक्षोकर्ष युदोऽत्यन्तं प्रणनाम च मुद्गलं मया सम्पूर्णभावेन कथितं ते द्विजोतम कामनाशकरम् पूर्णं विकटस्य चरित्रकं धर्मार्थकाममोक्षाणां ब्रह्मभूयस्य दायकं नानेन सदृशं किञ्चित् किं भूय श्रोतुमिच्छसि ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि षष्ठे खण्डे विकडचरिते विगडचरितसमाप्तिवर्णनं नाम श्री श्रीगजाननार्पणमस्तु इति श्रीमुद्गलपुराणे षष्ठण्ठसमाप्तः ओ